गर्गसंहिता खंडम सेवन् विश्वजित खंडम अध्यायम तर्टिफैव् बहुलाश्व उवाच अहो अत्यद्भुतं युद्धं मुने प्राद्युम्निनाकृतं मृके हदे महादैत्ये किं बभूवरणे पुनः श्रीनारद उवाच मृगदैत्यं हदम् वीक्ष्य कालनाभो महासुरः क्रोडारूढो रणम् मुहुः। अक्रूरम् बाण विंशत्यागतम् च दशभिः शरैः अर्जुनम् दशभिर्बाणैर्युयुधानम् च पञ्चभिः दशभिः कार्ष्णिम् बाणशतेन वै अनिरुद्धम् च विंशत्या दीप्तिमन्तम् च पञ्चभिः साम्बम् च शतबाणैश्च विव्याधसमरे सुरः तद्बाणायुर्व्याकुला वीरा बभूवुर्घटिकाद्वयम् हयाश्च पञ्चदाम् प्राप्ताश्चूर्णीभूतारणाङ्गणे तब्धस्तलाखवं दृष्ट्वा प्रसन्नो रुक्मिणी सुधः कालनाम्भं साधु पदैपूजयामास सङ्गरे प्रद्युम्नस्वं धनुर्नीत्वा बाणमेकं समादधे कोदण्डमुक्तो विशिखस्तक्रोडं दीर्घरूपिणम् समुन्नीय भ्रामयित्वा स्वर्लोके लक्षयोजनम् आकाशात् पादयामास समुद्रेऽभिमनादिनि प्रद्युम्नो भगवान् साक्षाद् द्वितीयम् बाणमादधे सोऽपि बाणसमुन्नीय कालनाभम् महाबलं भ्रामयन् पादयामास चन्द्रावत्याम् बलात् पुरी कालनाभप्रपतिध किञ्चित् व्याकुलमानसः गृहीत्वा धगदाम् गुर्वीम् लक्षभारभिनिर्मिताम् रणम् प्राप्तो यदुबलम् प्रोधयामास दैत्यराड गजान् रथान् हयान् वीरान् गदया वज्रकल्पया पादयामासवेगेन महावादो यथा तरून् कांश्चित् प्रोन्निय चिक्षेप गगने बलाद अम्बराते निपे दुःखौ राजन्वर्षोपला इव तदा गदां समादाय साम्बोजाम्बवदी सुतः डमूर्ध्नि तं दैत्यम् कालनाभम् महासुरम् तयोर्युद्धमभूद्घोरम् गदाभ्याम् रणमण्डले विस्फुलिंगान् क्षरन्त्यौ द्वे गदे चूर्णी बभूवधुः अन्ये गदे समाधाया तस्त दुःसङ्गरे कालनाभस्तदा प्राहसाम्भम् जाम्भवदी सुतम् ये केनापि प्रहारेण ना हन्मित्वाम् नात्र संशयः पूर्वम् कालनाभोध वदय साम्ब तदाडः गदो गदां नित्वा साम्भो जखान गदया जखानगदया कालनाभ कालनाभमुरस्थले गदया भिन्नहृदया उद्वामन्रुधिरं मुखाद व्यसुपपादभूपृष्टे वज्राहद इवाचलः अभूजय जय रावसाधुवादः सदा नृप देवदुन्दुभयो नेदुर्नरदुन्दुभयस्तथा साम्बसेनोपरिसुरा पुष्पवर्षं प्रचक्रिरे विद्याधर्यश्च गन्धर्वा ननृतुश्च जगुर्मुदा इति श्रीगर्गसंहितायां श्रीविश्वजिद्भखण्डे श्रीनारदबहुलाश्वसंवादे कालनाभ दैत्यवधो नाम पञ्चस्त्रिंशोऽध्यायः ओम् अध्यायम् फर्टिसिक्स् श्रीनारद उवाच कालनाभेध पदिते महान् कोलाहलो भवत् पुष्ट्रारूढो महानाभो दैत्यप्राप्तो रणाङ्गणे मुखादग्निम् समसृजन्माया वेदैत्यपुङ्गवः तेनाग्निना भूमिवृक्ष जज्ज्वलुश्च दिश्यो दश वीराणाम् कञ्जुकोष्णीष कडिबन्धाङ्गरक्षकाः प्रज्ज्वलुर्महाराज मुञ्जपुष्पप्रतूलवद समुद्रपट्टनभवैः पीदारुणसितासितैः हरितैश्चित्रवर्णैश्च सूक्ष्मैः काश्मीरजैरभि हेमरत्नखजद्भिश्च कम्बलैः सहिदा गजाः प्रज ज्वलुर्मृधिराजन् वृक्षै शैला इवाग्निना शिखारत्नैश्चामरैश्च आरैर्है मै परिच्छदैः उत्पतन्दोहया युद्धे मृग इव दवाग्निना सैन्यम् भयादुरम् दृष्ट्वा दीप्तिमान् कृष्णनन्दनः माया वह्नि प्रशान्त्यर्थम् पर्जन्यास्त्रम् समादधे बाणाद्विनिर्गदामेघा संवर्तक गणाहिव ववृषुर्जलधाराभिर्नदन्तो भैरवं रवम् आसारेण महाराजप्रावृत्कालो भवत्क्षिदौ पुंस्कोकिला कोकिलाश्च मयूरासारसादयः मण्डूका प्रजगुर्गीर्भिरिन्द्र गोपाश्च रेजिरे इन्द्रचापेन दामिन्या मैथिलेन्द्रबभौ नभः युद्धं शान्तिं गदे वह्नौ महानाभो महासुरः प्राहीणोन्निशितं शूलं रुषा दीप्तिमदे शूलं सर्पमिवायान्तम् दीप्तिमान् रोहिणी सुधः चिच्छेदत्वसिन युद्धे पणिनं गरुडो यथा दशं तं चोद्भटं चोष्ट्रं महानाभस्य वाहनं दीप्तिमान् स्वेन खड्गेन सं जकानरणाङ्गणे द्विधा भूदपपादौर्व्यां खड्ग जगाम जगामपञ्चदामुष्ट्रो महानाभस्य पश्यदः महानाभो महादैत्यो गजमारुह्य वेगदः शूलहस्तपुनः प्रागान्नादयन् व्योममण्डलम् प्रीतिमानश्वमारुह्य सैन्धवं चञ्चलासिदम् तडित्प्रभेण खड्गेन बभौ श्रीकृष्णनन्दनः तुरङ्गम् पार्ष्णिकादेन प्रोत्पदन् धरणीतलाद आरूढो गजकुम्भान्तम् गिरिशृङ्गम् यथा हरिः खड्गेन चिदधारेण दीप्तिमान् कृष्णनन्दनः महानाभस्य सहसा शिरकायादपाहरद बाणवर्षं प्रकुर्वन्तीं सेनां तस्य दुरात्मनः जखानदीप्तिमान् सिंहो गजयूधं यथासिना केजित् खड्गेनाभिषदा शेषा दैत्या पलायिताः देवादीप्तिमधोमूर्ध्निं पुष्पवर्षं प्रचक्रिरे जघुपिन्नरगन्धर्वा ननृतुश्चाप्सरो गणाः ऋषयो मुनयो देवास्तुष्टो वो श्रीपरे सुदम् युधि श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे महानाभवधो नाम षट्त्रिंशोऽध्यायः ओ अध्यायं तर्टि सेवेन् नारद उवाच महानाभमृदं श्रुत्वा सेनां वीक्ष्य पलायितां दैत्यस्तिमिङ्गिलारूढो हरिश्मश्रुसमायययौ हरिश्मश्रुस्तदा दैत्यो रुषा प्रस्फुरिताधरः उवाच परुषं वाक्यं यादवानां च हरिश्मश्रुरुवाच यूयं सर्वेऽपि मे शक्रिया मनुष्या स्वल्पविक्रमाः शस्त्राय जयन्तो दीना वै पौरुषं किं भवा दृश्ये भवताम्बलवान् कोऽपि विना शस्त्रं मया सह वै पौरुषं येन दृश्यते श्रीनारद उवाच युद्धम् दैत्यव च तत् प्रोद्भटम् बभुः सर्वे बभू उस्ते तूष्णीम् प्रशंसम्भः परस्परम् सर्वेषाम् पश्यताम् भानुसत्यभामात्मजो बली त्यक्त्वा शस्त्राणि सहसा तस्थौ कृष्णम् मिङ्गिलात् समुत्तीर्य हरिश्मश्रुर्महाबलः तस्थौ तत्सम्मुखे राजन भुजमास्फोट्य यत्नतः भुजाभ्यां च भुजौ बद्ध्वा नोदनां चक्रतुर्बलाद दन्तैर्गजाविवने प्रहरन्दौ परस्परं नोदयामास तं दैत्यशदयोजनं भुजाभ्यां राजराजेन्द्र सिंहः सिंहमिवौ जसा महासुरं नोदयामास सहसा सहस्रं योजनं बलाद कन्दरे स्वभुजान् कृत्वा कटौ च विनिधायतं भानुं सङ्गृहीत्वा पादयामास दैत्यराट भानुस्तम् पृष्टदेशेऽपि सन्निधाय भुजौ ज गृहीत्वा जङ्घयो दैत्यम् पादयामास भूतले अध तौ पुनरुद्धाय भुजवास्फोट्यतस्तदुः त्वरं तौ बलिनौ राजन् सुपर्णिनाविव दैत्यो भुजौ जस नीत्वा भानुं श्रीकृष्णनन्दनम् चिक्षेपधृत्वा चरणावा काश्ये लक्षयोजनम् आकाशात्पथितो भानु किञ्चिद्व्याकुलमानसः प्रह्लादैव शैलाङ्गाद्रक्षिता कृपया हरेः हरिश्मश्रुं सङ्गृहीत्वा दीर्घश्मश्रौ हरे सुधः भ्रामयित्वा गच्छेप व्योम्नि तं लक्षयोजनम् आकाशात्पथिदसोऽपि किञ्चित् व्याकुलमानसः मुखे कृत्वा स्वकङ्कूर्चं मुष्टिना तं तताटः मुष्टा मुष्टिरणं राजन् बभूव कडिकाद्वयम् निष्पिष्टाङ्गो हरिश्मश्रुर्ग्रावाणम् भानुमूर्धनि चिक्षेपजमः वेगाद्रक्ताक्षक्रोधमूर्च्छिदः भानुर्द्रुमम् सङ्गृहीत्वा प्राक्षिपत्तस्य मस्तके सोऽविद्रुमम् सङ्गृहीत्वा प्राहिणोद्भानुमूर्धनि हरिश्मश्रुमः दैत्यो रक्ताक्षक्रोधमूर्छिदः गजम् गृहीत्वा शुण्डायां तेन भानुम् तताटः भानुश्चान्यम् गजम् नीत्वा गृहीत्वा तद्गजम् करे अरिश्मश्रुम् महादैत्यम् गजेनाभ्य हनदृढम् चीत्कारमदकुर्वन्तम् गजम् नीत्वा निपात्यतम् तस्य दन्तौ समुत्पाट्यताभ्याम् भानुम् तताटः भानुमाकाशवागाः कूर्च मृत्युक्किलास्य च वरेण शिवदत्तेन प्रोत्सितोऽयम् महासुरः इति श्रुत्वा वजोभानुर्धावन् क्रोधप्रभूरिदः सङ्गृहीत्वा भुजाभ्याम् तम् पादयो प्रणदन्मुहुः भ्रामयित्वा महाराज सर्वेषाम् पश्यताम् सदां। पादयामास भूपृष्टे कमण्डलुमिवार्भकः मुखात्कूर्चं समुन्नीय समुत्पाट्यकरौ ज तदामुष्टिना मूर्ध्नि हरिश्मश्रुं महासुरं तदा मृत्युं गदे दैत्ये हरिश्मश्रौ नृतेश्वरः देवदुन्दुभयो ने नरदुन्दुभयस्तथा अभो जय जय राभो अभो जय जय रावो ननृ दुर्देवनायकाः प्रसन्नादिविजाराजन् पुष्पवर्षम् प्रचक्रिरे युद्धं श्रीकृष्णपुत्राणां विक्रमपरमाद्भुदः मया दे कथितपुण्य किम्भूय्य श्रोतुमिच्छसि यदि श्रीगर्गसंहितायाम् श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे हरिष्म श्रु दैत्यवधो नाम सप्तत्रिंशोऽध्यायः ओम् अध्यायम् तर्टि एय्ट् बहुलाश्व उवाच हरिश्मश्रुवादिकान् भ्रातॄन्मृदान् ज्ञात्वा महासुरः शकुनि किं चकाराग्रे वद तन्मुनिसत्तम श्रीनारद उवाच हरिश्मश्रौ हरे राजन् शकुनिक्रोधमूर्छितः रणाङ्गणे प्राहदैत्यान् भ्रातृशोकपरिप्लुतः शकुनिरुवाच हे पौलोमकालकेया सर्वे शृणुतु मध्वजः अहो दैवबलं येन किन्न भूयाद्विपर्ययः कालनाभेन मेभ्राता समुद्रमथनेयमः जिदः पूर्वं सोऽपि दैवान् मनुष्यैरिकमारिदः शम्बरः सूर्यजित्साक्षात् कार्ष्णीना शिशुना जिदः उत्कजशक्रजेतापि महाबलमहाबलः सोपि बालेन कृष्णेन ना मारिदो नारदाच्छ्रुदम् समुद्रमधने पूर्वमसुराणां च पश्यतां वन्निर्जितो हि येनापि निपादितः यस्याग्रेवरुणः पूर्वं युद्धभेदः पलायितः भूतः सन्तापनसोऽपि मारितस्तुच्च विक्रमैः येन पूर्वम् महायुद्धे विक्रमैस्तोषिदः शिवः स वृको वृष्णिभिस्तु चैर्मारिदः सङ्गरेऽत्र वै महानाभेन मे भ्रादादिविवायोर्विनिर्जितः मनुषर्यादवैरत्र मारितसोऽपि साम्प्रतं हा दैवयेन स्वर्लोके जितः शक्रसुदो बली निपातितस्यपि चात्र हरिश्मश्रुश्च मानवैः तस्मा दयादवीं पृथ्वीं करिष्ये शपधो मम जरासन्धेन शाल्वेन दन्तवक्त्रेण धीमदा शिशुपालेन मित्रेण युष्माभिः सहि दोह्यहं सुतलाश्च समाहूदैर्दानवैश्चण्डविक्रमैः देवान् चेदुङ्गमिष्यामि बाणासुरसमन्वितः कार्ष्ण्यादीनुद्भटान् सर्वान् वृष्णीं जित्वा दुरात्मनः सस्त्रीकान्नमरान् बद्ध्वा क्षिपे मेरुगुफामुखे गोविप्रसुरसाधूंश्च चन्दांसि च तपस्विनः यज्ञं श्राद्धं तिदिक्षूंश्च नानातीर्थपरान् पुनः हनिष्यामि न सन्देहश्चरिष्यामि सुखं तदः धन्यकं सोमः वीर्यो देवानां विजयी बली न विद्यते भूमितले मित्रम् मे परमः सुहृद श्रीनारद उवाच इत्युक्त्वा शकुनेर्युद्धे दानवेन्द्रो महाबलः आययौ सहसा दैत्यप्रद्युम्नस्याभि सम्मुखे महाधनुसमादाय लक्षभारसमं दृढं मयेन निर्मिदम् तज्या टङ्कारं स चकारः धनुष्ठङ्कारशब्देन दिग्गजा बधरीकृताः निपेदोर्गिरयो नेता विचेलुसिन्धवो नृप ननाद सर्वं ब्रह्माण्डं च परिगदा मण्डलम्भुवः वीरोपरिगदा विराज्याघोषेणादिविकुलाः णाद्विदुद्रुवुर्नागा उत्पतन्तोहया मृधे एवं बलायिधा सर्वे ह्यकस्माद्भयविकुलाः तदा स्थिताः धनुष्टङ्कारयन्तस्ते महाबलपराक्रमाः शकुनिर्दशभिर्भार् व्याधार्जुनमाहवे गाण्डीवी सरधस्तस्मा चतुःक्रोशे पपातः गतं च बाणविंशत्य शकुन्यर्युद्धदुर्मदः चिक्षेपशरथं राजन्नादयन् व्योममण्डलम् चत्वारिं षरैर्वीरो निरुद्धं धन्विनां विव्याध सरधं सरथम् राजन्नादयन् व्योममण्डलम् साश्वोरथो निरुद्धस्य षोडशक्रोशमास्थितः साम्बं च शिदबाणैश्च तताडशकुनिर्मृधे साम्बोऽपि सरथो राजन्म्बरे समराङ्गणाद द्वात्रिंशद्योजनमार्गम् निपपादविदेहराट कार्ष्णीम् समागतम् दृष्ट्वा शघुनिक्रोधपूरितः सहस बाणपडलैः सम् जखानरणाङ्गणे प्रद्युम्नस्य रथो राजन् सम्भ्रमन् खडिकाद्वयं शतक्रोशे पपादोर्व्याम् कमण्डलुरिवाहदः सर्वे विशि स्मस्य पुनैर्बलम् दृष्ट्वाध यादवाः जघ्नोर्नानाविधैशस्त्रैर्दैत्यमद्रिं यथा गजाः गदोऽर्जुनो निरुद्धस्तु साम्बोजा भवती सुतः धनुष्टङ्कारयम् तस्ते पुनर्युद्धं समागताः अथ वायुवेगे रथे स्थितः धनुष्टङ्गारयन् राजन् प्राप्तो भूद्रणमण्डले प्रलयार्णवसङ्घट्टभीमसङ्कर्षनादिनीम् धनुर्ज्यां सहुने कार्ष्णिश्चिच्छेददशभिशरैः सहस्रैश्च सहस्राश्वान् रथं च विशिखैशदैः स रथिम् बाणविंशप्य पादयामास भूतले तदोरथं समुदाप्य है हैरर्णैर्नियोजितम् अन्यसूदं रथे कृत्वा रथमारुह्य दैत्यराड सन्दधे सिञ्जनीम् राजन् कोदण्डे चण्डविक्रमे शदम्बाणान् समाकृष्य निशङ्गात् पृष्टतो गतान् चापे निधाय कर्णान्तमाकृष्य प्राहमन्मथम् शकुनिरुवाचा सर्वेषाम् खादयिष्यामि शत्रुमुख्यम् मदोत्कटम् पश्चात्सेनाम् घनिष्यामि यदूनाम् स्वस्ततेजसाम् प्रद्युम्न उवाच सदा वयःकालबलेन देहिनां प्रयादि चायेव सुखे मुहुर्मुहुः तथा च दुःखं च सुखं गदागदम् कनावलिर्वायुबलेन के यथा कृतां कृषिं सिञ्चदि यां हि सर्वदश्चिनत्तिदात्रेण यथा कृषीवलः तदा हि कालस्वकृतां जनावलिं दुरत्य यः पादि गुणैर्विलुम्बति इदं करिष्यामि करोमि भूयो ममेदमस्तीति तदेव माब्रूवन् अहं सुखी दुःखयुधः सुहृज्जनो लोकस्त्वहङ्कारविमोहिदोऽसुरा धन्यस्त्वम् राजशार्दूलमुनिन् वाग्भिर्विडम्बयन् स्वभावो दुस्त्यजो नृणाम् पृथग्भूतस्त्रिभिर्गुणैः श्रीनारद उवाच एवम् ब्रुवाणा वन्योन्यम् प्रद्युम्नशकुनीमृधे युयुधादे मैथिलेन्द्र शक्रवृत्रा विवस्थिधौ इति तौ धनुषो मुक्तान् विशिकान् सूर्यरश्मि वद चिच्छेदकार्ष्निर्बाणेन कुवाक्येनेव मित्रतां लक्षभारमयी गुर्वीं गृहीत्वा महदीं गदां जनमूर्ध्नि प्रद्युम्नं शकुनिर्युद्धदुर्मदः प्रद्युम्नो भगवान् साक्षाद्गतया वज्रकल्पया काचपात्रं यथा दण्डस्तद्गताम् शतधा करोद अद दैत्योरुषा विष्टस्त्रिशूलम् च स्फुरदृजा प्रद्युम्नस्याहनन् मूर्ध्नि शब्दमुच्चैः समुच्चरन् त्रिशूल न हरे पुत्रस्त्रिशूलम् शतधाच्चिनद कुन्दम् तीक्ष्णम् शकुनये प्रागिणो कुन्देन विद्धहृदय किञ्चिद्व्याकुलमानसः परिकेण हरे पुत्रम् सन्दताडरणाङ्गणे यमदण्डम् ततो नीत्वा रुक्मिणीनन्दनो बली परमाद्भुतम् चञ्चलाश्वांश्च सहसा वेगदः सारथिं स्यन्तनम् दिव्यम् सूदे मृत्युं गदे साश्वे चूर्णी भूदे रथे नृव परिखे च महा दैत्यखड्गं जग्राहरोषधः प्रद्युम्नोऽपि महावीरो यमदण्डेन मिथिला द्विधा चकार तत्खड्गं पन्नगं गरुडो यथा यमदण्डेन तं दैत्यं स्कन्धे कार्ष्णि तथाट सा तस्याखादेन शकुनि सद्यो मूर्छामवापः दैत्यसेनां विशेषा शुश्रीकृष्णक्रोधमूर्छिदः निपादयन् महावीरान्वनं वैश्वानरो यथा गजां स्तुरङ्गांश्च रथान् दैत्यां स्तानाददायिनः पादयाम संयमवद्यमदण्डेन माधवः छिन्नपादाश्चिन्नमुखाश्चिन्नाङ्गाश्चिन्न्वैते यादनुजा युद्धे मूर्छिदा निधनम् गदाः यमरूपधरम् दृष्ट्वा प्रद्युम्नम् भीमविक्रमम् त्यक्त्वा स्वं स्वम् ऋणम् के जिद्रुद्रुहुस्ते इति श्रीगर्गसंहितायाम् श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे शकुनि युद्धवर्णनम् नामाष्टात्रिंशोऽध्यायः ओ अध्यायम् तर्टि नैन् श्रीनारद उवाच शकुनि पुनरुद्धाय स्वबलम् वीक्ष्य बोद्धितम् जग्राहसमहाराजलक्षभारसमं धनुः निधाय बाणं निशिदम् कोदण्डे चण्डविक्रमे कार्ष्णीम् प्राहरणे राजन् शकुनेर्दैत्यराड्बली शकुनिरुवाच कर्मप्रधानं जगदीतले महत्कर्मैव साक्षाद्गुरुरीश्वरः प्रभुः उच्चावचत्वम् भवदिह कर्मणा तेनैव राजन्विजय पराजयः गवां सहस्रेषु यथा हि वत्सकस्वमादरम् बिन्दति पश्यदां सदाम् तदा हि येनापि कृतम् शुभाशुभम् नरेषु तिष्ठत्सुतमेव गच्छति ततो विजेष्यामि दृढेन कर्मणा रिपुम्भवन्तं शभदकृदो मया सद्यः कुरुत्वं प्रतिकारमेव तद्येनापि न स्यात् भुवि ते पराजयः श्रीप्रद्युं उवाच कर्मप्रधानं यदि मन्यसे भवान् कालं विना तर्हि फलं न विद्यते कृते जपागे यदि विघ्नदा क्वजिद सदा बलिष्टं समयं विदुपरे पाकप्रकारे सति पाकसाधनं कदापि कर्तारमृते न जायते वदन्ति कर्तारमधपरम्परे न कर्मकालम कर्मकालं शृणुदैत्यपुङ्गवा योगं विदुःखेऽपि यदा ह्ययोगदः कथं भवेत् कौ पाग पाकसाधनं सर्वं हि वा योगमृदे वृद्धा भवेत् काले तथा कर्मणि कर्तरि योगं तथा कर्मणि कर्तरि स्थिते कार्ये विधिः सं साङ्ख्यमृदे वृथा भवेद पाकप्रकाराद्यविचार कृध्यता न तर्हि पाकस्य यथा प्रसाधनम् तं नमामि परिपूर्णतमांशं येन विश्वमखिलं विदिदं खे शकुनिरुवाच हे प्रद्युम्नमहाबाहो त्वं साक्षात् ज्ञानशेवधिः तव दर्शनमात्रेण नरो याधिकृतार्थतां ये त्वसङ्गं समासाद्य वार्तां कुर्वन्ति नित्यशः तेषां तु महिमानं हि नालम् चतुर्मुखः नारद उवाच इत्युक्त्वा शकुनिर्दैत्यो मायावी दैत्यराड् बली शिक्षितं मयदैत्येन रौरवास्त्रं समादधे महोरगा दन्तशूका वृक्षिकाश्च विषोत्कटाः कोडिशो गरुडा बाणान् नीलकण्ठा तैर्दर्शितम् बलम् सर्वम् भूत्कारैर्मदाम् गदम् वीक्ष्य कार्ष्णीर्मः बुद्धिर्गरुडास्त्रम् समादधे कोडिशो गरुडाबाणा नीलकण्ठाकलापिनः अन्ये च पक्षिणो भीमानिर्गदास्तस्य पश्यतः अग्रस्सन्नुरगान् युध्ये दन्तशूकान् स वृश्चिकान् तीक्ष्णतुण्डा बृहत्पक्षाः क्षणात् ते दृश्यतां गदाः दैत्योऽपि राक्षसीं मायां गान्धर्वी गौह्यकीं पुनः पैशाचीं सन्दधे राजन् शकुन्यर्युद्धदुर्मदः तदाणनुर्गदाभूदेता कॉडिश अंगारा मुचुस्ते वै परालाण ज्ञाप्वाताम सीमा पैशाची मीनकेतन सत्स्त्र संदे बाणे युद्धकांक्षी हरे सु तस्माद्विनिर्गदा राजन् कोडिशो विष्णुपार्षदाः जघ्नोऽपिशाचीम् तां मायाम् पन्नगीम् गरुडो यथा मायां दैत्योऽपि मायावी गौह्यकीं सन्दधे पुनः संभूदा कोडिशो मेघा गर्जदो भीमरूपिणः विष्टां मोत्रं च रुधिरं मेदो मज्जास्तिवर्षिणः ज्ञात्वाध मायां प्रद्युम्नो भगवान् हरिः तन्ना महाराजा महाराज कोलास्त्रं सम्दधेत्विषौ तद्गणाद्यज्ञवाराहो निर्गतो घर्घरस्वनः सडा विधूय वेगेन दंष्ट्रया तीक्ष्णया खनान् विदारयन्नणे रेजे वेणून्मत्तगजो यथा दैत्योधमायाम् गान्धर्वीं चकाररणमण्डले युद्धं न दृश्यदे तद्वध्यमसौधानिकोडिशः वस्त्रालङ्कारयुक्तानि बभूवुः पश्यतां सदाम् विद्याधर्यश्च गन्धर्वा गायन्दो नृत्यतत्पराः मृदङ्गतालवादित्रैर्मोहनैरागमिश्रितैः हावभावकडाक्षैश्च तोषयन्द्यो जनान् नृप मोहिन्यसुन्दरी कमललोचनाः तासां लावण्यरागाभ्यां मोहं यादेषु वृष्णिषु रान्धर्वीमोहिनी मायां ज्ञात्वा कार्ष्णिर्महाबलः सन्दधे तत्प्रहारार्थे ज्ञानास्त्रं रणमण्डले ज्ञानोदयेत्तदा तदाजादे मोहनाशो नृपेश्वरा नाशं गदायां मायायां शकुनिक्रोधमूर्च्छितः राक्षसीं सम्दधे मायाम् माया सपक्षै सपक्षैपर्वतैराजन् क्षणात्त चादिदं नभः महान्धकारो भूत्पृथ्व्यां परार्धं च दग्धवृक्षशिलास्तीनि कबन्धरुधिराणि च गदा परिखनिस्तृंश्च मुसलादीनि सर्वदः अम्बराद्भ्रमुशैला मेघा इव विदेखराट रक्षोगणशूलहस्ताश्चिन्दिभिन्दिवादिनः यादुधानाश्च शतशो भक्षयन्दो द्विवान् हयान् सिंहव्याक्रवराहाश्च दृश्यन्ते रणमण्डले मर्दयन्तो न कैर्नागांश्चर्वयन्दो वपुं शिवै पलायमानम् दृष्ट्वा कार्ष्णीर्महाबलः जेतुं तां राक्षसी मायाम् नृसिंहास्त्रम् समादधे नृसिंहो रौद्ररूपदृक कुरत्सडो ललजिह्वो न कलाङ्गूलभूषितः चलद्बालो भीषणस्यो हुङ्गारेणादिभीषणः सिंहनादं च कुर्वन् वै संस्थितो रणमण्डले न नाददेन ब्रह्माण्डं सप्तलोकैर्भिलैः सह विचेलुदिग्गजास्तराजद्भूखण्डमण्डलम् गृहीत्वा क्यम्बरे शैलान् सवृक्षान्नखरखरैः पादयामास भूपृष्ठे दैत्यानाम् च प्रपश्यताम् रक्षोगणान् सम् गृहीत्वा पाडयामास वेगदः यादुधानगणान् पभ्याम् सममर्द हरिर्मृधे सिंहान् व्याघ्रान् वराहांस संविदार्य नखैकरैः शिक्षेपगगने विष्णुस्तत्रैवान्तर्दधे पुनः नाशं गदायां मायायां राक्षस्यां रुक्मिणीसुतः शङ्खं दक्मौ विजयदं मौलेन्द्रं च रणाङ्गणे अभूजय जय रावो दुन्दुभिध्वनिमिश्रुतः प्रद्युम्नस्योपरि सुरापुष्पवर्षम् प्रकर्चिरे प्रचक्रिरे स्वमायां निर्गतायां शकुनिर्दैत्यपुङ्गवः शरथसैनिकैः सार्धं तत्रैवान्तर्पितोऽभवत् <coughs> मायां चकारदैतेयीं मयदैत्यप्रदर्शिताम् माया अस्ति शुण्ठा समां धाराम् वर्षतोदि तडिस्वनाः सां वर्त गगनामेखा आजक्मुपश्यतां सदां क्षणाः सर्वे समुद्रास्ते चण्डवादेन वेपिता क्षुभिदा ऊर्मिसङ्घर्षा वर्तैप्लाविदभूरुजः भूमण्डलम् सपदि तत्प्रलाविधम् चात्मभिः समम् पृष्ट्वा सर्वे प्रापुस्तत्र भयम् बहु वदन्दो रामकृष्णेदि विस्मृतस्वपराक्रमाः क्षणमात्रेण राजेन्द्रतूष्णीम् भूदा पराजिताः तदा कार्ष्णीर्महाबाहुकोदण्डे चण्डविक्रमे बाणम् निधायतः सा श्रीकृष्णास्त्रम् समादधे नवार्ककोडिद्युदिमन्महन्महो वीरं जयन् मैथिलवै दिशोदश समागतं तत्र कुशस्थली पुरः स्वयं परं स्वार्थमिवात्मवाञ्छितं तस्मिन् परे तेजसि नूतनाम्बुदच्छविं सुवर्णाम्बुजरेणुवाससं भृङ्गावलिकूजितकुन्तलावलिं स्रजं दधानं नववैजयन्तीम् श्रीवत्सरत्नोत्तमचारुवक्षस्सम् चतुर्भुजम् पद्मविशालवीक्षणम् स्फुरत्किरीडम् वरहारनूपुरम् लः सन्नवार्कद्युतिहेमकुण्डलम् विलोक्यदेवम् यदवो दिहर्षिताः परम् प्रणेमुकृतहस्तसम्पुडाः प्रचक्रिरे मैथिलपुष्पवर्षिणो मराजया रावमदीव सर्वतः स दैत्यशकुने सज्जम् कोदण्डम् प्राचीनदृषा शार्ङ्गमुक्तेन तच्छार्ङ्गी बाणेनैकेन लीलया सच्चिन्नधन्वा शकुनि त्यक्त्वा युद्धम् प्रधर्षिदः यदि संहरिमानेदुम् ययौ चन्द्रावतीम् पुरीम् इति श्रीगर्गसंहितायाम् श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे श्रीकृष्णागमनम् नामैकोन चत्वारिंशोऽध्यायः ओ अध्यायम् 40 श्रीनारद उवाच दैत्ये गदेतशकुनौ भगवान्कमलेक्षणः कार्ष्ण्यादि यादवान् सर्वान् आहूयेद्धमुवाचः दैत्योयं दैत्योऽयं शघुनिपूर्वं सुमेरोपार्श्वोत्तरे चतुर्युगं वर्जितान्नस्तपः सातोषयच्छिवन् चतुर्युगे व्यतीते दुः साक्षाद्देवो महेश्वरः प्रसन्नो दर्शनं दत्वा वरं ब्रूहीत्युवाचः नत्वादशपुनिर्दैत्यकृताञ्जलिपुटशनैः हृष्टरोमाश्रु पूर्णाक्षप्राह गद्गदया गिरा मृदः सन्भूमि संस्पर्शाद्भूयात् सञ्जीविधप्रभो आकाशे मे मृदिर्देव मा भूयात् घटिकाद्वयम् दैत्येनोक्दोहरसाक्षात् दत्त्वा तस्मै वरद्वयं पञ्चरस्तं सुखम् दत्वा प्राक् दैत्यं नदाननम् जीवकल्पम् सुखम् चैनम् रक्ष दैत्यसदनख अस्मिन् मृते च ज्ञातव्यम् स्वम् त्वया सुर इति तस्मै रुद्रश्चान्तरधीयदा तस्मात् तस्य वधो दुर्गे भविष्यति सुखे मृदे श्रीनारद उवाच इत्युक्त्वा वीरसदसि भगवान् देवगीसुधः सुवर्णम् श्रीभगवानुवाच शृणुताक्ष्यमहाबुद्धे गच्छ चन्द्रावतीं पुरीं शतयोजनविस्तीर्णां दैत्यसेनासमाकुलां प्रासादैर्गगनस्पर्शायर्हेमरत्नमनोहरैः विचित्रोपवनारामै शोभितां दैत्यपुङ्गवैः दुर्गे दुर्गे द्वारदेशे दैत्यपुङ्गवैः तां सूक्ष्मरूपं दधारः अलक्षितो दैत्यवृन्दै पश्यन् प्रासादतोलिकाः तेषु पतनुत्पदंश्च शकुनेर्मन्दिरे गतः प्रक्षञ्चुकं दैत्यजीवं क्षणं तत्रस्ति स्थितो भवद युद्धार्थं दंशितं तत्र शगुनिं दैत्य पुङ्गवं नानाशस्त्रधरं वीरं क्रोधपूरितमानसं गृहीत्वादम् परिकरे प्राह राजन् मदालसा मदालसोवाच राजन् सर्वेपि सुहृदोऽनुकूलाभ्रातरस्तव मा रीतास्सङ्गरे भर्तप्रोद्भटा दैत्यपुङ्गवाः मायाहि योद्धुं यधुभिरागदो भगवान् हरिः देहि तस्मै बलिं सद्यो येन श्रेयो ह्यवाप्स्यसि शकुनिरुवाच हनिष्यामि यदुन् सैन्यायर्मे हताभ्रातरो बलाद मृत्युर्मे नास्ति भूमध्ये शिवस्यापि वरेण उपद्वीपे चंद्रनामनी मदंगे पर्वदे शुभे मे जीवरूपीदु शुको वर्तदे साम्प्रतं प्रिये चूडेना सर्पेण रक्षितो हर्निशंशुकः यदत् कोऽपि न जानाति कथं मृत्युश्च मे भवेद श्रीनारद उवाच शुकवार्ताम् तदश्रुत्वा गरुडो दिव्यवाहनः उपद्वीपं तु चन्द्राख्यं गन्तुं तस्मान् मनो दधे उत्पदन् गरुडो वेगसमुद्रस्य तडेगदः द्वीपं विचिन्वं चन्द्राख्यमाकाशे विचरन् खगः शतयोजनविस्तीर्णे समुद्रे भीमनादिनी पक्षिराड् सिंहलं प्राप लतावृन्दमनोहरं तत्र पप्रचगरुड किं नामस्य जनान् प्रति सिंहलोऽयमिति श्रुत्वा गरुडप्रोत्पदन् त्रिगूढशिखरे नृपा लङ्कां प्राप्य ततो वेगात् पाञ्चजन्यं जगामः पाञ्चजन्याब्धिनिकडे क्षुधितः पक्षिराड्बली प्रसह्यमीनान् जग्राह तीक्ष्णया तुण्डया भृशं तत्र चैको महान्नक्रो लम्बितो योजनद्वयं प्रचण्डवेगो गरुडस्तीक्ष्णया तुण्डया चदम् बलेन गरुडस्तस्य चकाराकर्षणं तटे तयोराकर्षणं राजन्मिधो भूत् खटिकाद्वयम् प्रचण्डवेगो गरुडस्तीक्ष्णया तुण्डया च तं तदाडपृष्टे दृष्टाङ्गं दण्डेन यमराढ्यथा नक्ररूपं विहाय शु महान् नत्वा श्रीगरुडं साक्षात् प्राह प्रहसिता ननः विद्याधर उवाच अहं विद्याधर पूर्वं नाम्ना वैहेमकुण्डलः आकाशगङ्गायां स्नातुं गतो द्विविधमण्डले तत्र स्नानं प्रकुर्वन्तं कगुद्धमुनिसत्थमं पादे गृहीत्वा हास्येन जलान्तर्गतवानहम् मांसशाप कगुद्धोऽपि त्वं नक्रो भवधुर्मदे मया प्रसादिदशीघ्रम् वरं ददौ पार्श्यतुण्डप्रहारेण न नक्रत्वात्वं विमुच्यस्य तस्य चापा दद्यमुक्तकृपया तव सुव्रता श्रीनारद उवाच इत्युत्युक्त्वा च विद्याध्रे हेमकुण्डले उड्ढितो गरुडस्तस्मात् पक्षाभ्याम् व्योममण्डले हरिणाख्यम् चोपद्वीपम् प्राप्तवान् वेगधः खगः अपान्तरतमस्तत्र करोति विपुलम् तपः तस्याश्रमे खगेशस्य पक्षचन्द्रम् पपातः तम् दृष्ट्वा प्राक् गरुडमपान्तरतमा मुनिः पक्षम् निधाय मे मूर्ध्नि गच्छ पक्षिण्यथा सुखम् पक्षम् नीत्वा गद्धर्क्ष्यो धृत्वा तन्मनस्तके च तम् तत्समानान् पक्षचन्द्राननेकान् स ददर्शः प्रागादिविस्मितम् ताक्ष्य मपान्तरमा यदा यदा हि श्रीकृष्णावतारो भू तदा पदा पक्षोऽपि गरुडस्यात्र पदत्येगः सदा खग कल्पे कल्पे कृष्णचन्द्रावतारः पक्षपक्षो मूर्ध्नि मे सोऽपितोऽपि आनन्त्याद्वाद्यन्तवन्तं वदन्ति पक्षिन्मूर्ध्ना नौमि कृष्णा यतस्मै श्रीनारद उवाच तच्छ्रुत्वा विस्मितस्तार्क्ष्यो नत्वा दं मुनिपुङ्गवं द्वीपं रमणकं प्रागादुत्पदन् व्योममण्डलाद् सर्पेभ्यो बिबलिं नीत्वा द्वीपमावर्तकं गतः तत्र दिव्यसुधाकुण्डे सुधां पीत्वा विराट् बलीं शुक्लद्वीपं तु सम्प्राप्त पप्रच्छ द्विवीपचन्द्रभाक मया प्रणोदितः पक्षी प्रयया उत्तराम् दिश्याम् चन्द्रद्वीपम् तु सम्प्राप्त पर्वदे पदगेश्वरः जलदुर्गम् वह्निदुर्गम् वैनदेयो ददर्शः जलदुर्गम् चञ्चुपटे सर्वम् कृत्वा विराट् बलि वह्निदुर्गम् च तेनापि सान्द्वयामा स मैथिला दरीमुखेशयाना ये दैत्यालक्ष्यं समुद्धिताः तैः सार्धं समभुद्युद्धं तार्क्ष्यस्य कडिकाद्वयम् कांश्चित् पादनखैर्युद्धे विदधारखगेश्वरः कांश्चिद्दैत्यां स्वपक्षाभ्याम् पादयामास भूदले कांश्चित् चन्दुगुडेनापि गृहीत्वा पक्षिराद्बलि पादयित्वा गिरे पृष्ठे चिक्षेपगने बलाद् केचिन्मृदास्तदा शेषा दुद्रुगुस्ते दिशो दशा युद्धं दैत्यवधं कृत्वा दरीमध्ये गदखः सकारपादविक्षेपं शङ्खचूडो परिस्फुरद शङ्खचूडो विगरुडं दृष्ट्वा सोऽधिं शुकम् जले पञ्चरस्थम् शीघ्रम् त्यक्त्वा पलायुधः चुञ्चु देशेन तम् नीत्वा शुकम् सद्यः सम् पञ्चरम् शुकम् सद्यः स पञ्चरम् प्रोत्पतन्नम्बरे राजन् युद्धे गन्तुम् मनो दधे पलायितानाम् दैत्यानाम् तावत् कोलाहलो महान् शुकोनिदशुकोनिदो वददामम्बरे नृप तच्छब्दो दिक्षुसैन्यानां गतशब्दस्तु शृण्वतां दिवि भूमौ सर्वतो बिब्रह्माण्डेऽपि प्रपूरितः शुकोनिद इति श्रुत्वा शकुनिशङ्गितो सुरैः शूलं धृत्वा ततः सद्यश्चन्द्रागवत्यां समुद्धितः वरुडेन सुको नितश्रुत्वा क्रुद्धसमन्वयाद तच्छूलता डिस्तस्तार्क्ष्यो न जहौ मुखदसुखं सप्तद्वीपान् सप्तसिन्धून् निरीक्षन् स गदखगा तमन्वधावदैत्येन्द्रो दिक्षु दिक्षु नभोऽ भ्रमन्नागान्धौ राजनाकाशे कोडियो जनं तद्भृन्ना जसौमुखदुखम् स पञ्चरसुको राजन् आकाशे लक्षयो जनम् पपादोपल वद्वेगात् सुमेरोर्गिरिमूर्धनि पञ्चरो पञ्चरोगस्तत्र विशीर्णो भूव्यशुशुकः गरुडोध महायुद्धे कृष्णपार्श्वम् समागतः दैत्यखिन्नमनराजन् पुरीं चन्द्रावतीं ययौ इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे गरुडागमो नाम चत्वारिंशोऽध्यायः ओम्